ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं 34 फोर् शिष्योत्पत्ति वायुरुवाच ऋषयस्तद्वच श्रुत्वा सूतमाहुस्तदुत्तरं कथं वेदाः पुनर्व्यस्तास्तन्नो ब्रूहि महामदे सूत उवाच द्वापरे दुपुरावृत्ते मनोस्वायम्भुवान्तरे ब्रह्मा मनुमुवाचेदं रक्षभेदं महामते। परिवृत्तं युगं द्विजातयः संवृतायुगदोषेण सर्वे चैव यथाक्रमं तस्य मानम् युगवशादल्पं चैव हि दृश्यते दे दशसाहस्रभागेन ह्यवशिष्टं कृतोदितं वायतेजोबलं चाल्पं सर्वं चैव प्रणश्यति वेदक्रिया हि कार्यास्योर्मा भूद्वेदविनाशनम् वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति यज्ञे नष्टे वेदनाश्यस्तदस्सर्वं प्रणश्यति आद्यो वेदश्चतुष्पादशदसाहस्रसम्मितः पुनर्दशघुणकृष्णो यज्ञो वै सर्वकामधुक एवमुक्तस्तथेत्युक्त्वा लौक रतः मनोर्लौकहितेरतः वेदमेघं चतुष्पादं चतुर्धाव्यभजत्प्रभुः ब्रह्मणो वचनात्तादलोकानां हिदकाम्यया तदहं वर्तमानेन युष्माकं वेदकल्पनं मन्वन्तरेण वक्ष्यामि व्यतीतानां प्रकल्पनं प्रत्यक्षेन वरोक्षं वै तन्निबोध सप्तमाः अस्मिन् युगे तदा व्यासः पराश्चर्यः परन्तपः द्वै पायन इति ख्यातो विष्णो रंशः सनातनः ब्रह्मणा चोदितसोऽस्मिन्वेदं प्रचक्रमे अथ शिष्यान् स चदुरो चतुरो वेदकारणाद् जैमिनीं च सुमन्तुं च वैशम्पायनमेव च चतुर्थं तैलमे तेषां पञ्चमं लोमहर्षणम् ऋग्वेदश्रावकं तैलमग्रहीद्विधिवद्विजाः यजुर्वेदप्रवक्तारं वैशम्पायनमेव च जैमिनिं सामवेदार्थश्रावकं सोऽन्वपद्यत तथैवाधर्ववेदस्य सुमं तु मृषिसत्तमम् इतिहासपुराणस्य कलपवाक्यस्य चैव हि मां चैव प्रति जग्राह भगवानीश्वरप्रभुः एक आसीद्यजुर्वेदस्थं चतुर्थाव्यकल्पयद चादुर्होत्रमभूतस्मिं स्तेन यज्ञमकल्पयद आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथैव च औद्घात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यधर्वभिः ततः स ऋच उद्धृत्य ऋग्वेदं समकल्पयद होतृकं कल्पयत्तेन यजुर्वेदं जगत्पदिः सामभि सामवेदं च तेनोद्गात्रमकल्पयद रास्त्वधर्ववेदेन सर्वकर्माण्यकारयत् आख्यानैश्चाप्युपाख्यानैर्गाधाभिकल्पजोत्क्रिभिः पुरामसंहितां चक्रे पुराणार्थविशारदः यच्छिष्टं तु यजर्वेदे तेन यत्त्वमयुञ्जद यजनात्स यजुर्वेद इति शास्त्रविनिश्चयः आदानामुद्धतत्वाच्च यजोंषि विषमाणि सदे सदेनोद्धतवीर्यस्तु ऋत्विग्भिर्वेदपारगैः प्रयुज्यते ह्यश्वमेधस्तेन वा पुष्यते तु सः ऋचो गृहीत्वा पैलस्तु व्यभजतु द्विधा पुनः द्वे कृत्वा संहिते चैव शिष्याभ्या मददाद्विभुः इदं प्रमत्तये चैकां द्वितीयां बाष्कलाय चतस्रसंहिता कृत्वा बाष्कलोद्विजसत्तमः शिष्यानध्यापयामास शुश्रुषाभिरतान् हितान् बोध्यां तु प्रथमां शाखां द्वितीयामग्निमादरं पाराशरीं तृतीयान्तु याज्ञवल्क्यामधा पराम् संहितामृषिसत्तमः अध्यापयन्महाभागं माण्डूकेयं यशस्विनम् सत्यश्रवसमग्र्यं तु पुत्रं सदुमहायशाः सत्यश्रवाः सत्यहिदं पुत्रमध्यापयद्विभुः सोऽपि सत्यहितः पुत्रम् पुनरध्यापयद्विजाः सत्यश्रियं महात्मानं सत्यधर्मपरायणम् अभवांस्तस्य शिष्या वै त्रयस्तु सुमहौजसः सत्यश्रियाश्च विद्वांसशास्त्रग्रहणतत्पराः साकल्य प्रथमस्तेषा तस्मादरथीतर बाकली भरद्वाज शाखा प्रवर्तकास्तु साकल्योज्ञाहारगर् जनक वै विनाशा मगमद्विजा शांशपायन उवाच कथं विनाशमगमत्समुनिर्ज्ञानगर्वितः जनकस्याश्वमेधेतु कथवादाभ्यजायत किमर्थं वा भवद्वाध्येन सार्धमधापि यदत्सर्वं यथा वृत्तमाचक्षत्रविदिदं तव सुद उवाच जनकस्याश्वमेधेतु महानासीत्समागमः ऋषीणां हि सहस्राणि तत्रा जग्मुरनेकषः राजर्षे जनकस्याध तं यज्ञं हि दिदृक्षवः आगतान् ब्राह्मणान् दृष्ट्वा जिज्ञासास्या भवत्तदः कोन्वेषां ब्राह्मणश्रेष्ठकथं मे निश्चयो भवेत् इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः गवां सहस्रमादाय सुवर्णमधिकं तदः ग्रामान् रत्नानि दास्यीच्च मुनीन्प्राहनराधिपः सर्वानहं प्रपन्नो वशिरसा श्रेष्ठभागिनः यदे तदा हृदं वित्तं यो वा श्रेष्ठतमो भवेत् तस्मै तदुपनीतं मे वित्तवित्तम् द्विजोत्तमाः जनकस्य वच श्रुत्वा ऋषयस्ते श्रुतिक्षमाः दृष्ट्वा धनं महासारं धन गृध्ना जिघृक्षवः वेदज्ञानमदोल्बणान् मनसागदवित्तास्ते ममै ममैतन्न ममै ब्रूहि वा किं विकथसे इत्येवं धनदोषेण वादांश्चगुरनेकशः अधान्यस्तत्र वैविद्वान् ब्रह्मणस्तु सुधकविः याज्ञवल्क्यो महाते जास्तपस्वी ब्रह्मवित्तमः महा। ब्रह्मणोंश समुत्पन्नो वाक्यं प्रोवाचसुस्वरं शिष्यं ब्रह्मविदां श्रेष्ठं धनमे दद्गृहाण वै नयस्व ज गृहं वत्स ममै तन्नात्र संशयः सर्ववादेष्वहं वक्ता नान्यः कश्चित्तु मत्समः यो वानप्रीयदे विद्वान् समाह्वयतुमाचिरं ततो ब्रह्मार्णवः क्षुब्धसमुद्र इव संप्लवे तानुवाच ततः भवन्तः सत्यवादिनः वदामहे यथा शक्ति जिज्ञासन्तः परस्परं ततोऽभ्युपगतास्तेषां वादाशब्दैरनेकशः सहस्रधा शुभैरर्थैः सूक्ष्मदर्शनसम्भवैः लोके वेदे परीक्षकाः। वादा तदाध्यात्मस्थानृत संम गुण्क्ता नृप्पी परीक्षका धनकेमनाषयस्वद्यथकता सर्वेते ते मुनयस्तेन याज्ञवल्क्येन धीमदा एकैकशस्तदः पृष्ठा नैवोत्तरमधाब्रुवन् स विजित्य मुनीन् सर्वान् ब्रह्मराशिर्महामतिः साकल्यमिति होवाच वादकर्तारमञ्जसा साकल्यवदवक्तव्यम् किं ध्यायन्नवतिष्ठसे पनस्तु यजमानेन बद्धो नीदो यथा धृतः एवं स प्रोवाच याज्ञवल्क्यं सपुरुषं मुनिसन्निधौ त्वमस्मास्तृणवत्कृत्वा तथैववान्यान् द्विजोत्तमान् विद्याधनं महासारं स्वयं ग्राहं जिघृक्षसि साकल्येनैव मुक्तस्तु याज्ञवल्क्यस्तमब्रवीद ब्रह्मिष्ठानां बलं विद्धि विद्या तत्त्वार्थदर्शनं कामस्यार्थेन सम्बन्धस्तेनार्थं कामयामहे कामप्रश्नधना विप्राक् कामप्रश्नं वदामहे पणश्चैवस्य राज्येस्तस्मान्नितं धनं मया यत श्रुत्वा वचस्तस्य साकल्यक्रोधमूर्च्छितः याज्ञवल्क्यमधोवाच कामप्रश्नार्थकृद्वचः ब्रूहिदानीं मयोद्दिष्टान् कामप्रश्नान्यथार्थतः ततः समभवद्वादस्तयोर्ब्रह्मविदोर्महान् साग्रं प्रश्नसहस्रं तु शाकल्यः सोऽकरोत्तदा याज्ञवल्क्योऽब्रवीत् सर्वमृषीणां शृण्वतां तदा साकल्यस्त्वास निर्वाधो याज्ञवल्क्यस्तमब्रवीद प्रश्नमेकं ममापित्वं साकल्यवदकामिकं पणप्राप्यस्य वादस्य ब्रुवतोर्मृत्युरत्र वै सुसूक्ष्मज्ञानसंयुक्तम् साङ्ख्यं योगमथापि वा अध्यात्मस्य गतिमुख्यां ध्यानमार्गमथापि वा अध संचोदितः प्रश्नो यज्ञवल्क्येन धीमदा साकल्यस्तमविज्ञाय तथा मृत्युमवाप्तवान् एवम् स्मृतः सशाकल्यप्रश्नव्याख्यानपीडितः एवं विवादस्सुमहानासीतेषां धनार्थिनां ऋषीणां ऋषिभिः सार्धं याज्ञवल्क्यस्य चैव हि धनं गृह्य यशो विख्याय चात्मनः जगाम वै गृहं स्वच्छं शिष्यैः परिवृतो वशी इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे व्यास शिष्योत्पत्तिवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः ओ